अथर्ग्वेदे द्वितीयाष्टके द्वितीयोऽध्यायः ॐ सुषुमायातमद्रिभिर्गो सीतामत्सरा इमे सोमा सोमत्सरा इमे आराजानादिविस्पृशास्मत्रागन्तमुपनः इमेवामित्रावरुणागवा शिरः सोमाः शुक्रागवा शिरः इम आयातमिन्दवः सोमाः सोदध्या शिरः सुता सोदध्या शिरः उत वा मुषसो बुधिसाकम् सूर्यस्य रश्मिभिः सुतो मित्राय वरुणाय भीतये चारुर्हृताय भीतये धेनुन्न वा सरीमंसन्धु हन्त्यद्रिभिः सोमं दु हन्त्यद्रिभिः अस्मत्रागन्तमुपनोर्वाञ्च सोम पीतये अयम् वाम् मित्रावरुणाद्रिभिः सुतः सोम आपीतये सुतः प्रप्रपूष्णस्तु विजातस्य शस्यते महित्वमस्य तव सो नतन्दते स्तोत्रमस्य न तन्दते अर्चामिसु नयन्नहमन्त्यूतिम् मयोभुवम् विश्वस्य यो मन आयुयुवे मखो देव प्रहित्वा पूषन्न चिरन्नयामनिस्तोमेभिः कृण्वऋणवो यथा मृधपुष्ट्रोऽनपि परो मृधाः उभेयत्वा मयोभुवन् देवम् सख्यायमर्त्याः अस्माकमाङ्गूषान्त्युम् निरस्कृतिवाजेषुद्युम् निरस्कृति यस्यते ते पूषन् सख्ये विपन्यवः कृत्वा चिच्छन्तो वसा बुभुज्रिर इति कृत्वा बुभुज्रिरे तामनुत्वा न वीयसी नियुतम् राजईमहे अहेळमानपुरुषम् ससरी भवबाजे वाजे सरी भव अस्या ओषुण उपसातये भुवो एलमानोररिवाम् अजाश्वश्रवस्य तामजा ओषु त्वामभृतिमहि स्तोमेभिर्दस्म साधुभिः नहि त्वापोषन्नति मन्य आगृढे न ते सख्यमपह्मे अस्तु श्रौषट् पुरो अग्निन्धिया दध आनुतच्छर्धो ओ दिव्यम् वृणीमह इन्द्रवायो वृणीमहे यद्ध क्राणाविभस्वतिनाभा सन्दायिनम् यसी अधः प्रसूनरुपयन्तु धीतयो ओ देवाङच्छानधीतयाः यद्धत्यम् मित्रावरुणामृता दद्या ददाथे अनृतम् स्वेन मञ्जुना दक्षस्य स्वेन मञ्जुना युवोरित्थाधिसद्मस्व पश्यामहिरन्ययम् देभिश्च न मनसा स्वेभिरक्षभिः सोमस्य स्वेभिरक्षभिः युवां स्तोमेऽभियन्तो अश्विना शाभजन्त इव श्लोकमायवो युवाम्भव्याभ्या आयवाः युगोर्विश्वा अधिश्रियः पृक्षश्च विश्ववेदसा पृषायन्ते वाम् पवयो हिरण्यये रथेदस्रा हिरण्यये अचेदिदस्रागमण्वथो युञ्जते वां रथयुजोदिविष्टिष्वद्भस्मानो दिविष्टिषु अधिवां स्थामबन्धुरे रथेदस्रा हिरण्यजे पथे वयन्तावनुशासतारजोऽजसा शासतारजाः शचीभिर्म शचीवसो दिवानक्तम् रशस्य तम् मा वाम् रातिरुपदसत्कदाचना स्मद्रातिः कदाचन ऋषन्ीन्द्रवृषपाणा स इन्दव इमे सुता अद्रिषुतास उद्भिदस्तुभ्यम् सुतास उद्भिदाः ते त्वा मन्दन्तु दावने महे चित्रा जराधसे गीर्भिर्यर्वा हस्तव मा न आगहि सुमृळीको न आगहि ोणो अग्रे शृणुहि त्वमीलितो देवेभ्यो ब्रवसि यज्ञेभ्यो राजभ्यो यज्ञेभ्यः यद्धत्यामङ्गिरोभ्यो धेनुन्दे वा अदत्तना वितान्दुक्रे अर्यमा कर्तरी स चाङ्गेषताम्बेदमे स च मोषु वो अस्मदभितानिभौंस्यासना भूवन्द्युम्ना निमोतजारिषुरस्मत्पुरोतजारिषु यद्वश्चित्रम् युगे युगेन व्यङ्घोषादमर्त्यम् अस्मासुतम् दध्यङ्घमे जनुषम् पूर्वो अङ्गिराः प्रियमे दः कण्वो अत्रनुर्विदस्ते मे पूर्वे मनुर्विदो तेषाम् देवेश्वायतिरस्माकन्तेषु नाभयः तेषाम् पदे नमह्यान मे गिरेन्द्राग्निन मे गिरा ोरायक्षध्वनिनो वन्तवार्यम् बृहस्पतिर्यजति वेन उक्षभिः पुरुवारेभिरुक्षभिः जगद्मा दूर आदिशं श्लोकमद्रेरसत्मना अथ रयदरिन्दानि सुक्रतुः पुरोसद्मानि सुक्रतुः ये देवासो दिव्येकादशस्थ पृथिव्या मध्येकादशस्थ अत्सुक्षितो महिनैकादशस्थते देवासो यज्ञमिमञ्जुषध्वम् वे दिशते प्रियधामायसुद्युते धासिमिमप्रभरायो निमग्नजे वस्त्रेणेव वासयामन्मनाशुचिम् ज्योतीरथम् शुक्रवर्णन्दमोहनम् अभिद्विजन्मा त्रिवृधन्न मृज्यते संवत्सरे वावृथे जग्धमीपुनाः अन्यस्यासा जिह्वाजेन्यो वृषान्या अन्येन वनिनो मृष्टवारणः कृष्णपृतौ वे विजे अस्य शक्षिता उभातरे ते प्राचारिह्वन्ध्वसयन्तम् दृशुच्युतमासाच्यम् कुपयम् वर्धनम् पितुः मुमुक्ष्वो ओ मनवे मानवस्यते रघुद्रुवः कृष्णसीतास ऊजुवाः असमनाजिरासो रघुष्यदोपातजोता उपयुज्यन्त आशवाः आदस्यते ध्वसयन्तो वृथे रथे कृष्णाभ्रम् महिमर्पः करिक्रतः यत्सीम् महि मम निम्प्राभिमर्मृषत विश्वसंस्तनयन्नेति नानदत् भूषन्नयोधि बभ्रूषु नम् न ते वृषेभपत्नीरभ्येतिरोरुवत् ओजायमानस्तन्वश्च शुम्भते भीमो न शृङ्गारिधाम दुर्गृभिः स विष्टिरसंग्रभायति विष्टिरः सङ्ग्रभायति जानन्ने वानतीर्नित्य आशये पुनर्निर्वर्धन्ते अपि यन्ति देव्यमन्यद्वर्पः पित्रोः कृण्वते स च तमग्रुवः पुनः ्रमुञ्चन्नेति नानदसुम्बरम् जनयम् जीवमसृतम् असीवासं मातुरिहन्नः तु विग्रेभिः सत्त्वभिर्याति विज्रयाः वयोदधत्पद्वतेरेरिहत्सदानुष्येणीसजते वर्तनीरः अस्माकमग्ने मघवत्सुरिह्यथश्वसीवान्षभोदभो नाः अवास्याशिशुमतीरदीतेर्भर्मे मयुत्सुपरिजर्भुराणः इदमग्ने सुधितम् दुर्धितादधिप्रियादुचिन्मन्मनःप्रेयो अस्तु ते यत्ते शुक्रन्तन्वो रोचतेषु चितेनास्मभ्यम् मनसे रत्नमात्मम् रथायनवमुतनो गृहाजलित्याद्राम् पद्वतीस्यग्ने अस्माकम् वीराम् उत नो मघो नो जनांश्चया पारयाच्छर्मया च अभीनो अग्न उक्थविज्युगुर्याद्या वा क्षामा सिन्धवश्च स्वूर्ताः ञव्यञ्जन्तो दीर्घाहे शम्बरमरुण्यो वरन्त बळित्थादद्वपुषेधाजिदर्शतम् देवस्य भर्गः सहसो यतो जने यदेवुपह्वरते साधते पतिरतस्य धेना अनयन्त सस्रुताः वृक्षो वपुः पितुमान्नित्य आशये द्वितीयमासप्तशिवासु मातृषु तृतीयमस्य वृषभस्य दोहसे दशप्रमदिञ्जनयन्तजोषणः निर्यतीम् बुद्धान्महिषस्य वर्पस ईशानासश्रवसाक्रन्तसूचयाः यदि मनुः प्रदिवो मध्व आधमे गुहासन्तम् मातरिश्वामथायति प्रयत्पितुः परमान् नीयते सुरोहति उपायदस्य जनुषम् यदिन्वत आदिद्यविष्ठो अभवत् घृणा शुचीः आदिन्मातृतराविशद्याश्वाशुचिरहिंस्य मान उर्भिया विवाहावृधे अनु यत्पूर्वा अरुहत्सनाजुवो निनम् यसीश्वपरा सुधावते आदिद्धोता आरम् देवान्यत्क्रत्वा मद्मना पुरुष्टुतोमर्तम् शंसम् विश्वधावेति धायसे वियदस्थाद्यजतो वातचोदितो वारो न मक्वाचरणानाकृतः तस्य पद्मम् दक्षुणः कृष्णजम् हसश्रुजिजन्मनोरज आव्यध्वनः रथो न यातः आदस्यते कृष्णासो दक्षि सूरयः शूरस्येव त्वे शथाः दीशेवयाः त्वया ह्यज्ञे वरुणो धृतव्रतो मित्रश्च शद्रे अर्यमासुदानवः यत्सेमनुक्रतुना विश्वथाः विभुररान्न देमिः परिपूरजायथा त्वमग्नेशमानाय सुन्वते रत्नै यविष्ठदेवतातिमिन्वसि तन्तानुरव्यम् सहसो युवन्वयम् भगन्नकारे महि रत्नधीमहि अस्मे रयिन्न स्वर्थन्दमो न सम्भगन्तम् रश्मीङ्यमतिजन्मनि उभे देवानां शंसमृत आ च सुक्रतूः उदनः सुद्योत्मा आजीराश्वो होता आ मन्द्रशृणवच्चन्द्ररथः स नो नेषतमैरमोरोद्यमं सुवितम् वस्यो अस्ता अस्ताव्यग्निश्रिमीवद्दिर्कैः साम्राज्याय प्रतरं ददानः अमीचये मघवा नो भजञ्च मिहन्नसूरो अतिनिष्टतन्युः समिद्धो अग्रावहदेवाद्य यत श्रुचे हरन्तनुष्वपूर्यम् सुतसोमायदाशुषे कृतवन्तमुपमादिमधुमन्तम् तनूनपात् यज्ञम् विप्रस्य मावतः शमानस्य दाशुषाः सुजिह्को अद्भुतो मद्धा यज्ञम् विमिक्षति नराशं सस्त्रिरादिवो देवो देवेषु यज्ञियाः कीडितो अग्नावहेन्द्रम् चित्रमिह प्रियम् इयम् हि त्वामधर्ममाच्छासु जिह्व वच्यते स्तृणानासो यतसृचो बर्हिर्यज्ञे स्वध्वरे वृन्दे देवव्यजस्तममिन्द्रायशर्मसप्रथाः विस्रजन्तामृता वृथः प्रजै देवेभ्यो महीः आफन्दमाने पुरा केन क्रोशा सा सुपेशसा यस्मीहतस्य मातरासीदताम् बर्हिरा सुमत् मन्दजिक्वाच कुर्मणी होता रादैव्या कवी यज्ञन्नो यक्षतामिमम् सिद्धमद्यतिविस्पृशम् शुचिर्देवेष्वर्पिता होत्रा मरुत्सुभारती इडा सरस्वतीमही बहिश्चीदम् तु यज्ञयाः पुरुत्मना गुरुवारम् पुरुत्मनाः त्वष्टापोषायविष्यतु राजेनाभास्मयुः अवसृजन्नु पद्मनाः देवान्यक्षिवनस्पते अग्निरहव्यासु शोदति देवो देवेषु मेधिरः भूषण् मरुत्पते विश्वदेवाय वायवेः स्वाहा गायत्रवेपते हव्यमिन्द्राय कर्तन स्वाहा कृतान्या गह्युपहव्यानि वीतये निन्द्रागहिः श्रुति हवन्ताम् हवन्ते हद्धरे प्रदव्यसीन्द्रव्यसीन्धीतिमग्नये वाचो मतिम् सहसः सोनवे भरे अपान्नपाद्यो वसुभिः सह प्रियो होता पृथिव्यान्यसे तृत्र्याः सदायमानः परमेव्यो मन्याभिरग्निरभवन्मातरिश्वरे अस्य क्रता समिधानस्य मज्मना प्रद्यावा शोचिः पृथिवी अरोचयत् अस्य त्वेषा सुद्युताः भात्वक्षसो अत्यक्तुर्न सिन्धवो अग्नेरे एजन्ते यमे एरि भृगवो विश्ववे एतसन्नाभाः पृथिव्या भुवनस्य मज्मनाः अग्निङ्गीर्भिर्हिनु हि वस्वो वरुणो न राजति न योपराय अग्निर्जम्बैष्टिगितैरत्रिभर्वति योहो न शत्रोन्सवनानृञ्जते कुविन्नोः अग्निरुदस्य वीरसद्वसुः कुविद्वसुभिः काममावरत् चोदः कुवित्तु तुज्यात्सातयेधियश्रुचिप्रतीकम् तमजा धिजागृणे घृतप्रतीकम् वरुतस्य धूर्षदमग्निम् मित्रम् न समिधानञ्जते इन्धानो अक्रो विदसेषु वीद्यच्छुक्रवर्णामुदु नोऽयम् स तेधिजम् अप्रयुच्छन्न प्रयुच्छद्भिरग्ने शिवेभिर्नः पायुभिः पाहि शग्मैः अदब्धेभिरदृपितेभिरिष्टे निमिशद्भिः परिपाहि नोजाः एति प्रहोदा अभिस्रुतः क्रमते दक्षिणावृतो या अस्य नाम प्रथमम् हनिंसते अभिमृतस्य दोहना अनूषतयो नौ देवस्य सदने परीभृताः अपामुपस्थे विभृतो यदावस तथः स्वधा अथ यद्याभिनीयते युयोषतः समयसातदि वपुःसमानमर्थम् वितरित्रतामिथः आदेम् भगवनहौ यः समस्मदा वोल्लुर्नरश्मीन्समयम्स्तसारथिः यमीन्त्वा समयसा स पर्यतः समाने यो नामिथुना समोकसा विवानलक्तम् वलितो युवाजनिपुरोचरन्नजरो मानुषायुगा तमेम् हिन्वन्ति धीतयोदशवृषो देवम् वर्ता स ऊतये अवामहे धनोरधिप्रवत आसर्णवत्यभिम्रजद्भिर्वयुनानपाधित त्वम् ह्यज्ञे दिव्यस्य राजसि त्वम् पार्थिवस्य पशुपा इवत्मना येनेतदेते बृहते अभिश्रिया हिरण्य एव क्वी बलिहिराशाते अग्ने दुषस्वप्रतिहर्यतद्वचो मन्द्रस्वधा भरतजात सुक्रतो यो विश्वतः प्रत्यङ्गसि दर्शतो रण् सन्दृष्टोऽपि तु प्रशिषस्तस्मिन्निष्टय स वाजस्य शवस शुष्मिनस्पतिः तमित्पृच्छन्ति न शिवोऽपि पृच्छति स्वे ने बधिरो मनसा यदग्रभीत न पृश्यते प्रथमम् नापरम् वचोऽस्य कृत्वा अप्रतृपितः तमिद्गच्छन्ति जुह्वा अस्तमर्वतेर्विश्वान्येकशृणवद्वजाहंसि मे पुरुप्रैषस्ततुरिर्यज्ञसाधनोच्छिद्रो तिश्यशुरा दत्तसंरभाः उपस्थायम् जररि यत्समानत सद्यो अभिश्वान्तम् ऋषते नान्द्ये मुदे यदे गच्छन् युषतीरभिष्ठितम् स ए मृगोऽप्योपदर्गुरुपत्वच्युपमस्यान्निधायि यब्रवीत्वयुनावर्त्येभ्योऽग्निर्विद्वाङ्कृतरिद्धि सत्यः त्र्योर्धानम् सत्तरश्मिङ्गणेशेनो न अग्निम् पित्रोरुपस्थे णिषत्तमस्य जरतो ध्रुवस्य विश्वादिवोरोचनापप्रिमांसम् उक्षामहाम् अभिवक्षरेणे अजरस्तस्थावितभूतिर्विश्वः उर्व्याः पदो निदधाति शानौरिहन्त्यूधो अरुषासो अस्य समानम् वत्समभि सञ्चरन्ति विश्वग्धेनो विचरतः सुमेके अनपवृज्याम् अध्वनो मिमा दे विश्वान्केताम् अधिमहो दुराने धीरा सः पदङ्करयो नयन्ति नाना ह्रारक्षमाणाजुर्यम् सिषा सन्तः पर्यपश्यन्त सिन्धुमाभिरेभ्यो अभवत्सूर्यो नृन् दृक्षेण्यः परिकाष्ठाः सुरेण्य पुरुत्रायत भवत्सूरहयेभ्यो गर्भेभ्यो मखवा विश्वदर्शदः तथा ते अग्ने शुचयन्त आयोर्ददाशुर्वायेभिराशुषाणाः उभेयत्तोकेतनये दधानारतस्य सामन्त्रयन्तदेवाः वोदामे अस्य वचसोऽयमिष्ठमम्भिष्ठस्य प्रभृतस्य पीयति त्वो अनुत्वो गृणाति वन्दारुस्ते तन्वम् वन्दे अग्ने ये पायवो अ मामते यन्ते अग्ने पश्यन्तो अन्धम् दुरिदादरक्षन् ररक्षरान् सुकृतो अविश्ववेदालिप्सन्तरिद्रिपवो नाहरेभुः यो नो अग्ने अररिवाङ्घायुरराती वा मर्चयति द्वयेन मन्त्रो गुरुः पुनरस्तु सो अस्मा अनुवृक्षेष्ट तन्वन्धुरुक्तैः कृतवायः सहस्य प्रविद्वान्मर्तो मर्तम् अर्चयति द्वयेन अतः पाहिस्तव मानस्तु मन्त्रमग्ने माकिर्णो गुरिताय धायैः मथेद्य विष्णो मातरिष्वाहोतारम् विश्वाप्सुम् विश्वदेव्यम् नियन्दधुर्मनुष्यासु विक्षुस्वा अर्णचित्रम् वपुषे विभावम् ददानमिन्नदभन्तमन्वाग्निर्वरोऽम् दा मतस्य चाकन्न दुषन्तविश्वान्यस्य कर्मोपस्तुतिम् भरमाणस्य कारो नित्ये चिन्म् सदनेजगर्भे प्रशस्तिभिर्दधिरे जज्ञा सह प्रसूनयन्त गृभयन्त इष्टावश्वासो नरथ्योरारहाणाः पुरोणि तस्मो निरिणातिजम्भैराद्रोचते पनाभिभावाः आदस्यवातो अनुवातिशोचिरस्तुर्नशर्यामसनामनुद्योरमयम् रिपवो नरिषण्यवो गर्भे सन्तम् प्रेषणा रेषयन्ति अन्धा अपश्या नदभन्नभिख्यानित्यास प्रेतारो अरक्षन् महः स राज एष ते पतिर्दन्निन इनस्य वसुनः पद आ उपध्रजन्तवद्रयो विधन्नित स यो विषानरान्नरोदस्योश्रवोऽभिरस्ति जीवपीतसर्गः प्रयः स्राणः आयः पुरन्नार्मिणे मदी देदत्यः कर्णन्यो ओ, ओ, ओ नार्वा सूरो नरुक्माञ्छदात्मा अभिद्विजन्मात्रीरोचनानि विश्वारजांसिशुषुतानोऽस्थात् होतायजिष्ठो अपां सधस्थे अयम् स होतायो द्विजन्मा विश्वादधे वार्याणि श्रवस्य वर्तो यो अस्मै सुतुपो ददाश पुरुत्वादाश्मान्वोचेरिरग्ने तव स्विदा तोदस्येव शरणामहस्य व्यनिनस्य धनिनः प्रहोषे चितररुषः कदाचन प्रजिगतो अदेवयोः स चन्द्रो विप्रवर्त्यो महोपराधन्तवो दिवि प्रप्रेत्ते अग्ने मनुष मित्रन्नयम् शिम्याकोषु गव्यवस्वाध्यो विदधे ए अप्सुजीजनन् हरे एजेताम्रोदसीपायसा गिरा प्रतिप्रियम् यजतम् जनुषामवाह यद्धत्यद्वाम्बुरमीहस्य सोमिनः प्रमित्रा सोनदधिरे स्वाभुवाः गातुमर्चत उत श्रुतम् वृषणापस्यावतः क्षितयोजन्मरोदस्योः प्रवाच्यम् मृषणा दक्षसे महे यदे वृताय भरथो यदर्वते प्रहोत्रया शिम्या आवीथो अध्वरम् प्रसा क्षितिरसुरया महि प्रियता आवानावृतमा घोषथो बृहत् युवन् दिवो बृहतो दक्ष मा भुवङ्गान्न महि अत्र महिरावारमृण्वथो रेण वस्तुज आसद्मन् स्वरन्विता उपरता उषसस्तक्वीरिव आवामृताय केशिनीरलोषतमित्र यत्र वरुण गातुमर्चथः अवत्मनासृजतम् विन्वतन्धिजो युवम् विप्रस्य मन्मना विरज्यथः व्योमाञ्ज्ञैश्च शमानो हताशति कविर्होताय यदि मन्मसाधनः उपाहतम् गच्छथो वीथो अध्वरमच्छागिरः सुमतिङ्गन्दमस्मयो युवाञ्जः प्रथमागोभिरञ्जतरुता वानामनसो न प्रयुक्तिषो भरन्ति वाम् मन्मनासंयता गिरो दृप्यतामनसारे पदाशाथे रेवद्वयो दधाथे रेवदाशाथेन रा मायाभिरितवो दिमाहिनम् न वान्द्यावोहभिर्नोत सिन्धवो न पणयो नानशुर्मघम् युवम् वस्त्राणि वसावसाथे युवोरच्छिद्रामन्तवो ह सर्गाः अवादिरतमलतानिविश्वरतेन मित्रावरुणा सचेथे एतच्चलत्वोऽपि चिकेत सत्यो मन्त्रः कविशस्तर्घावान् त्रिलश्रीम् हन्ति चतुरश्रीरुग्रोदे पलितोः प्रथमा अचूर्यन् अपादेति प्रथमा पद्वतीनाङ्कस्तद्वाम् निद्रावरुणा चिकेत गर्भो भारम्भरत्याजिरस्य ऋतम् विभर्त्य ऋतम् प्रयन्तमित्परिदारङ्कनीम् पश्याम शिरोपरिपद्यमानम् अनवप्रज्ञापिततापसानम् प्रियम् मित्रस्य वरुणस्य धाम अनश्वो जातो अचित्तम् ब्रह्मजुजुर्युवानः प्रमित्रे धाम आधे नवो मामतेयमवन्तेर्ब्रह्म प्रियम् पेपयन्सस्मिन्नो धन् पित्रोऽभिक्षेतवयुनायि विद्वानासा विरासन्नदिति मुरुष्येत् आवाहम् मित्रावरुणा हव्यष्टिन्नमसा देवाववसा वृत्त्या अस्माकम् ब्रह्म पृतनासु सह्या अस्माकम् वृष्ट्यर्दिव्यासु पारा यजा महे वाम् महःसजोषाः हव्येभिर्मित्रावरुणा नमोभिः घृतैर्घृतस्नोऽधयद्वामस्मे अद्भर्यभो नेतिभिर्भरन्ति प्रस्तुतिर्बान्धमनप्रयुक्तिरयामि मित्रावरुणा सुवृत्तिः अनक्ति यद्वाम् विदथे शुभोदा सुम्नम्बाम् सूरिर्लषणावियक्षन् पीपाय धे मुरलितिरृता जनाय मित्रावरुणाह बिर्दे हिनोति यद्वाम्विदथे स पर्यन्स रातः यो मानुषो न होता उत वाक्षुमध्यास्वन्धो गापश्च पीपयन्त देवीः उतो नो अस्य पूर्व्यः पतिर्दम् वीतम् पातम् वयस उश्रियायाः विष्णोर्नुकम् वीर्याणि प्रवोचञयः पार्थिवानि विममे रजांसे यो अस्कभायदुत्तरम् सतस्थम् विचक्रमाणस्त्रेधोरुगायः प्रतद्विष्णुस्तवते वीर्येण मृगो न भीमः यस्यो रुषु त्रिषु विश्वाः प्रविष्णवे शूषवे तु मन्मगि दीक्षित उरुगायाजवृष्णेः य इदम् दीर्घम् प्रयतम् सधस्थमेको विममे त्रिभिरित्पदेभिः यस्य त्रिपूर्णा मधुना पदान्यक्षीयमाणा स्मधया मदन्ति य उत्तु पृथिवीमुद्यामेको दादा रभुवनानि विश्वा तदस्य प्रियमभिपा अश्यान्नरो यत्र दे पयवो मदन्ति गुरुक्रमस्य स हि बन्धुरित्था पदे परमे मध्य उत्साः ता वाम्बास्तोऽन्युष्मसि गमध्ये यत्र गावो भूरि शृङ्गा अजासाः अत्राहतदुरुगायस्य वृष्णः परमम् परममभाति प्रवःपान्तमन्धसोधियायते महेशूराय विष्णवे चार्चता या साधुनिपर्वता नामराभ्या महस्तस्थतुर्वतेव साधुना त्वेष मित्था समरणं शिमीवतोरिन्द्राविष्णोसृतपामुरुष्यति या मर्त्याय प्रतिधीयमानमित्कृशानोरस्तुरसनामुरुष्यथाः धन्ति मह्यस्य वंस्यन्निमातरानयतिरेतसे भुजे दधादिपुत्रो वरम्बरम् पितुर्नाम तृतीयमधिरोचने दिवः तत्प्रतिजस्य वंस्य गृणीमसेनस्यत्रातुरभृकस्य मीण्डुषाः यः पार्थिवानित्रिभिरिद्रिगामभिरुक्रमिष्टो रुगाजाय जीवसे द्वे इदस्य क्रवणे स्वर्दृशोऽभिक्षायवर्त्यो भुरण्यते तृतीयमस्य न किरातधर्षति वयश्च न पतयन्तः पदत्रिणाः चतुर्भिः साकन्नपतिम् च नामभिश्चक्रन्न वृत्तम् विजयीङ्ग्रमे विपत् बृहच्छरीरो विमिमानरुक्मभिर्युवापुमारः प्रत्ययेत्याहवम् मित्रो आमित्रो नशेव्यो कृतासुतिर्विभू तद्युम् न ए भया उसप्रथाः अधा ते विष्णो विदुषा चिदर्ध्य स्तोमो य॒ज्ञश्चराद्यो हविष्पदा यः पूर्व्याय वेधसे नवीयसे सुमज्जा न ये विष्णवेददासते यो जातमस्य महतो महि ब्रवत्से दुश्रवोभिर्युज्यन्तिभ्यसत् तमुस्पोतारः पूर्ण्यथा वितरुतस्य गर्भम् जनुषाः विवर्तन आस्य जानन्तो रामचिद्विभक्त नमहस्ते विष्णोऽसुमतिम् भजामहे तमस्य राजा वरुणस्तमश्विनाक्रतुम् स्रजन्त मारुतस्य वेधसाः दाधारलक्षमुत्तममहर्विलम् व्रजम् च विष्णुः सखि वा अपोर्णुते आयो विवाय स रथा आय देव्य इन्द्रा आय विष्णुः सुकृतेः सुकृतरः वेधा अजिन्वत्रिषधस्थ आर्यमृतस्य भागे यजमानमाभजत् अपोद्यग्निर्ज्म उदे ति सूर्यो यो उषाश्चन्द्रा मह्या आ वो अर्चिषा आयुक्षातामश्विनायात वेदथम्प्रासा आवी देवः स पिता जगत्पृथक् यद्युञ्जाथे वृषणमश्विना रथम् कृतेन नो मधुना क्षत्रमुक्षतम् अस्माकम् ब्रह्मवृतनासुदिम्वतम् वयन्धनाशूरसाता भजेमहि अर्वाङ् त्रिचक्रो मधुवाह नो रथो जीराश्वो अश्विनोर्यातु सुष्ठुतः त्रिवन्धुरो मघवाः विश्वसौ भश्यन्न आन ऊर्जम् वहतमश्विना युवम् मधुमत्या नः कषयामिक्षतम् प्रायस्तारिष्टम् नीरपांसि से रक्षतम् सेधतम् वेषो भवतम् स चाभुवा युवम् हगर्भम् जगतीषु धत्थो युवम् विश्वेशु भुवनेष्वन्तः युवमग्निम् च वृषणा वैरजेथा युवम् हस्तोऽभिषदाभिषदेभिरथो हस्तो रथ्या आराध्येभिः अथोहक्षत्रमधिग्रायो वा हविष्मान्मनसा ददा इति द्वितीयाष्टके द्वितीयोऽध्यायः